संहिता पाठम् यः पावमानीरध्ये पावमानीरध्येत्तिर्षिभिः सम्भृतं रसं सर्वं स पूतमश्नातिः स्वदितम् मातरिष्वना यः पावमानीरध्येत्य ऋषिभिः सम्भृतं रसं सर्वं स पूतमश्नाति स्वदितं मातरिश्वना